raisampayana vacha तत्कर्म भीमस्य समीक्ष्य कृष्णः पुंतिसुतौ तौ परिशङ्कमानः निवारयामास महीपतिंस्तान् धर्मेण लब्धेत्यनुनीय एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः यथा वा संयुः सर्वे विस्मिता राजसत्तमाः ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः कृच्छ्रेण जग्मतु स्तौ भीमसेन धनञ्जयौ विमुक्तौ जनसम्बाधाच्छत्रुभिः परिवीक्षितौ कृष्णयानुगतौ तत्र नृवीरौतौ विरेजतुः पौर्णमास्याम् घनैर्मुक्तौ चन्द्रसूर्या विवोदितौ माता बहुविधम् विनाशम् पर्यचिन्तयत् अनागच्छत्सु पुत्रेषु भैक्षकालेऽभिगच्छति धार्तराष्ट्रैर्हता न स्युः विज्ञाय कुरु पुङ्गवाः मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः विपरीतं मतं जातम् व्यासस्यापि महात्मनः इत्येवं चिन्तयामास सुतस्नेहावृता प्रथा ततः सुप्रजनप्राये दुर्दिने मेघसंप्लुते महत्यथापराह्ने तु घनैः सूर्य जिष्णुर्भार्गववेश्मतत् इति श्रीमहाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवप्रत्यागमने एकोननवत्यधिकशततमोऽध्यायः